ो रा हरिः को गणानाम् त्वा गणपतिम् भवामहे कविङ्कवीनामोपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत न शृण्वन् नोतिभिः श्रीलगणपते गणेश त्वामा सुर्विप्रथमम् कवीना न हृते त्वत्क्रीयते किञ्चारे मामर्कम्भवञ्चित्रवच्च प्रणो देवी सरस्वती वाजे भर्वाजिनीवती ी नाम विद्यवतु शतधारमोत्समक्षीयमाणम् विपश्चितम् पितरम् वक्वानाम् वेणिम् वदन्तम् पित्रोरुपस्थेतम् रोदसी विवृतम् सत्यवाचम् ऋचो अक्षरे परमेव्यो वन्द्यस्मिन् देवा अभिविश्वे निषेतु यस्तन्न वेजिमृजाकरिष्यति यजित्तद्वितुस्तिमे समासते ओ अग्निवे पुरोहितम् यज्ञस्य देवमृत्विजम् ोदात्नधातमम् अग्निः पूर्वे भृषिभिरेभ्यो नूतनैरुदा स देवा देह वक्षति अग्निवस्वत्पोषमेव दिवे दीवे यशसम् धीरवत्तमम् अग्नेयम् यज्ञवत् वरम् विश्वतः परिभूरसि स यद्देवेषु गच्छति अग्निर्होताकविक्रतः सत्यश्चित्रश्रावस्तमः देवो देवेभिरागमत् चरङ्गदासुषे त्वमग्नेये भद्रम् करिष्यसि तदेतत्सत्यमम् गिरः उपत्वाग्नेति वेदि वेदोषा वस्तद्भिया भयम् नमो भरम् तयेवासि राजन्तमध्वराणाम् गोपावृतस्य दि देविम् बद्धमानम् स्वेदमे स नः पितेवसूनवेग्ने सुनो भवा स च स्मानस्वस्तये वायवायाहि दर्शते मे सोमारम् कृताः तेषाम् पाहि श्रुतीहवम् वायगुप्ते ो मा अहर्मिदाः वायो तव प्रपञ्चति धेनाजिकाजिदासुषे पुरोषीसोमापीतये इन्द्रवायोजिमे सुतागुपप्रयोभिरागतम् इन्द्रवो वा भुशन्तिः जविन्द्रश्च चेत सुतानाम् वादिनी वसु रातमुपद्र वाजमिन्द्रश्च सुताया तमुपरिष्कृतम् लक्ष्मीयारा मित्रम्भूवे पूतदक्षम् वरुणम् च दिशादसम् ृताजीम् साधन्ता ऋतेन वित्रावरुणा मृता मृथा मृतस्पृशा क्रतुम् बृहन्त मासाथे कवीराः वित्रावरुणाद्विजाता वो रुक्षया रक्षम् दधाते अपसमम् अश्विनायज्वलेरिहोद्रवर्पाणि शुभस्पती पुरोभुजाचनस्य तम् अश्विना पुरोदं ससा नराशवीरीलयाधिया देश्यापनतम् गिराः दस्रा युवाकवसुता नासत्याबलिषः आयातम् रुद्रवर्तनी इन्द्राजा हि चित्रभानोऽसुरायिवे त्वायवाः अन्वेभिस्तनाः पूतासाः इन्द्राजा हि धियेषितो विप्रजोतः सुतावतः उप ब्रह्माणि इन्द्राया हितुजा नमुपब्रह्माणि हरिवः सुदेतधिष्वनश्च नाः सोमासश्चि धृतो विश्वे देवासा गता दा स्वाम् सोदाशुः विश्वे देवासोः अत्तुरस्तुतमागम् तरूर्णायः पुस्राजीभस्मसराणि विश्वे देवासो अश्विधजे हि मायासो अद्रुहाः मेधं दृशन्तवह्यः पावका नः सरस्वतीवाये धर्वाजिनीवती यैज्ञम् वष्टुधिया वासुः चोदयित्री सुन्दृगानाम् चेदन्ति सुमतीनाम् यम् दर्धे सरस्वती महो अन्नः सरस्वती प्रचेतयति केतुना धियो विश्वाविराजी सुरूपकर्त्रमोदये सुदुघामिव गोदुहे जुहोमसिद्य विद्यमि उपनः समनागहि सोमस्य सोमपाः पिव गोदायिद्रेवतोमदाः अथा ते अन्तमानाम् विद्याम मा सुमतीनाम् मानो अतिथ्या गहि रे हिरिद्रवस्त्रिमिन्द्रम् पृच्छावि पश्चिदम् यस्ते सखि ध्यावरम् उद ब्रूवन्तो लो निरञ्जतश्चिदारता दधा नागिन्द्रजिद्दुपाः उदनः सुभगाः भरिर्भोचेजब्दस्मकृष्टजाः श्यामेदिन्द्रस्य शर्वाणि ये वासुवासवे भरजज्ञश्रियम् भ्रमादनम् प्रदयन्वम् दयत्सकम् अस्य भीत्वा सदक्रतो घनो मृत्राणामभवः कावो बाजेषु वाजिनम् तन्त्वा बाजेषु वाजिनम् बाजया घनानामिन्द्रसातये यो राजो ओम निर्मान्सु बालः संवतः सखा तस्मादिन्द्रायगायत आत्मे दानिषी दतेन्द्रमभिप्रगायत सगाय म् पुरोणामीशानम् वार्याणा इन्द्रम् सोमे स चा सुते सखानो योगाभूमत्स राजे सुपुरम् ध्या गमद्बाजेभिरासनाः यस्य संस्तेन वृण्वते हरी समत्सुसत्रवः स्तादिन्द्राय गायता सुतपाम्ने सुता जिमेषु च योजन्ति पीतये सोमासोदध्याशिरः ॐ सुतस्य पीतये सद्यो वृद्धो अजायथाः इन्द्रजेष्ठाय सुप्रतो आत्वा विशन्त्वा स वः सोमा स इन्द्रगिर्वणः सन्ते सन्धुप्रचेतसे वाम् स्तोमा विवृधन्त्वा मुक्ता सदक्रतो वाम् बद्धम् तु नो गिराः रक्षितोति स्तमे जिवम् यस्मिन् विश्वा विपोंस्या नो मर्ता अभिद्रोहम् तनूनामिन्द्रगर्वणः ईशानोयवयादधम् युञ्जन्ति भ्रद्रवरुषम् चलन्तम् परितस्थुषाः रोचन्ते लोचनाजिः कुञ्जन्त्यस्य काव्याहरि विपक्षसारथे सोनाधृष्णो प्रवाहसा केतुम् कण्मण्ण केतवेपेशो मल्यापेषसे स मृषद्भीरजायथाः आदहस्वधाम न पुनर्गर्भत्त्वमे दिने तथा नाम यज्ञियम्भिर्गुहाचिन्द्रवह्निभिः अविन्दश्रिया नयम् तोयथामतिमच्छा विदद्मसृङ्गिराः महामनोषतश्रुतम् इन्द्रेण संहि दृक्षसे सञ्जग्भानो अविभ्युः अन्तु स भानवर्चसा अनवद्यैरविद्योभिर्मकः सह स्वदर्चति गणैरिन्द्रस्य काम्यैः अतः परिज्वन्नागहि दिवो वा रोचना गिराः तो वा सातिमी महे दिवो वा पार्थि बाधि इन्द्रम् महोबारजसः इन्द्रमिद्दासिनो बृहदिन्द्रवर्गेभिरक्तिनाः इन्द्रम् वाणीरनुषदा इन्द्रयद्धर्यो स च सम्मिश्रावचोदुजा इन्द्रोः वज्रीः रञ्जाः इन्द्रो दीर्घयचक्षसासूर्यम् रोहयद्भिः द्विगोभिरद्रीमैरयत् इन्द्रवाजेषु नोपसहस्रप्रधनेषु च उग्रमुग्राभिरुचिभिः इन्द्रम् वयम् माहा धन इन्द्रमर्भे हवामहे युजम् वृत्रेषु वज्रिणम् सनामृगन्नमम् धनुम् सत्रादा वह्नपावृधि अस्मभ्यमप्रदिष्कुतः तुञ्जेतुञ्जेयवृत्तरे स्तोमा इन्द्रस्य वज्रिणाः विन्धे अस्य सुम् दृषा यूथे मम स गः कृष्टीरि यत्योजसा ईशा नो अप्रजिष्पुतः इन्द्रम् बोधि स्वमहे जनेभ्यः अस्माकमस्तु केवलः येन्द्रसा नशिम् रजिम् सजित्वा नम् सदासहम् परिशिष्टभूतये भरा नियेन वृष्टिभत्य जानिभृता रुणधामहै ोता सोऽर्वदा इन्द्रत्वोदा सा भयम् वज्रम् धनाद धीमहि जये वसञ्जुधिस्पृधाः भयम् सूरेभिरष्टेभिरेन्द्रत्वया युजा भयम् सा सह्याम न्द्रः परश्चनुमाहि त्वमस्तु भज्रिणे योन्नाप्राधिनासवाः समोहे वाज आसतनरस्तोकस्य सनीतौ विप्रासो वाधिजायवाः कुक्षिः सोमवादमस्समुद्रजीव पिन्बाते मुर्वीराबोनकाकुदाः एवाह्यस्य सूनृता विरप्सि ओमा धीमहि अक्वा साखानसुषे ये वाहि तेऽपि भूतय भूतय इन्द्रमाभाते दासुषे स्य का या स्तोम उद्धम् च समं स्या इन्द्राय सोम वीतरे इन्द्रेहिमस्यन्धसो विस्मेभिः स्तोमपर्वभिः सृजता सुमे मन्दिमिन्द्राय मन्दिरे चर्क्रिम् विश्वाधितर्क्राये स्वा सुधि प्रमन्दिभिस्तोमे घर्विश्वदर्शने स तैषु समानेष्वा असग्रमिन्द्रजयगिरः प्रजित्वा मुदाहासता अजोषालषभम्पतिम् सञ्चोदयचित्रमर्वाग्राध इन्द्रवरेण्यम् असदित्ते विभु प्रभो अस्मान् सु तत्र चोदयेन्द्रराजेरभस्वतः तु विद्यम्भयशस्वतः सङ्गोम इन्द्रवायवदस्मे पृथुस्रवो बृहत् विस्मायुधेत्यक्षीतम् अस्मेधे हि सर्वो बृहद्युम्नम् सहस्रसातमम् इन्द्रतारसिनीः वसोरिन्द्रम् वसोपतिम् गेर्भिर्गृणन्तऋयम् होमकन्तारमूतये सुते सूते ज्ञानसे बृहद्रे हरये इन्द्राय सूषमर्चति गायम् दित्वा गायत्र्योऽर्थम् त्यर्कमर्पिणाः ब्रह्माणस्वा सलक्लवध्वम् समीपये गिरे यत्सानुरोहृत् भूल्यस्पष्टकर्त्वम् तदिन्द्रो अर्थम् चेदति यूथेन वृष्टिरे यदि युक्ष्वाहि केशिना हरीवृषनाकक्ष्यप्रा अहार इन्द्रसोमपा गिरामुपश्रुतिम् चरा ये हि स्तोमा अभिस्तदाभिगृणीह्यारूपा ब्रह्म च नोपसोऽसचेन्द्रयज्ञम् च वर्धयन्द्रायशम् संवर्धनम्बुर्निष्ठिथे शक्रोयसा सुतेषु नो रारणः सख्येषु चित्सहितम् राजेतम् सुमीर्ये सशक्रपुतनः स गजीन्द्रोपसुजमानः सुविवृतम् सुविरजमिन्द्रत्वादातमिज्ञसाः पामप्रजम् वृधि कृष्व राधो अद्रिवः गृहित्वा रोदरसी बुभिर्घायमानमिन्बतः देश सर्वती रहः सङ्गा अस्मभ्यम् धूनिः आश्रत्कर्म श्रुजीह बन्दो चिद्दधिष्वमे विद्मा हि त्वा ऋषन्तमम् वायेषु हवनः तमम् ऋषन्तमस्य होमः भूतिम् सहस्रसा तमा आतू न इन्द्रकौषिरवन्दसा नः परित्वा गिवणो गिरजिमा भवन्तु विश्वताः वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः इन्द्रम् विश्वाधन् समुद्रव्य च सङ्गिराः रथीतमम् रथीनाम् पाजाः नाम् सत्पदिम्पतिम् सख्येत इन्द्रवादिनो माभेमसमसपते त्वामभिप्रणोऽनुमोदेतारमपराजितम् ऊर्वीरिन्द्रस्य रातयोजविदस्योतयाः यधीवायस्य गोमातस्तोत्रभ्यो मम् हाते महम् पुराम् बिन्दुर्युमा कविरमीतौजाय इन्द्रो विश्वस्य कर्म नो भरता भद्रीगो द्रष्टुतः त्वम् बलस्य गोमतोपाव्रिगो बिलम् त्वाम् देवा विभ्युषस्तुज्यमानासाविषुः ोररातिभिः प्रत्यायम् सिन्धुमा वदन् उपादिष्टम् तगर्वणो वितुष्टे तस्य कालवाः मायाधीरेन्द्रमालिनम् त्वम् सुष्ठममादिरः वितुष्टे तस्य मेधीरास्तेषाम् सर्वाम् सुरा इन्द्रमीसा नमोजसाभि स्तोमा अनूषदा सहस्रम् यस्य रातय हुत वासन्ति भूयसीः अग्निम् दूतम् वृणीमहेहोदारम् विश्ववेदसम् अस्य यज्ञस्य सुप्रतुम् अग्निमग्निम् भवेमभिः सदा हवन्तविष्पतिम् भव्यवाहम् पुरप्रियम् अग्ने देवा इहावाहज ज्ञानो वृत्तबलिहिषे असि होता न गीव्याः आोसतो विभो धनग्नेसीभूत्यम् सत्सि बलिहिषि धृताहवनदीदिवः प्रतिस्पर्शदोदः अग्नेत्मम् रक्षस्विनाः अग्निनाग्निः समिध्यते कविर्गृहमादिर्जुवा हव्यमाजुह्वास्य कविमग्निमुपस्तुभिः सत्यधनुर्मानमध्वरे देवमागीवतादलम् यस्वामग्ने हविष्मादिर्धूतम् देव स भति तस्य स्म प्राता भवाग्निम् देववीतये हविष्मान् आविभासति तस्मै पावकमृणय सरः पावकजी देवा यज्ञम् भविश्च नः स्व नस्तवानाभगायत्रेण न वीयसा रयम् वीरवतीशम् अग्ने शुक्रेण सोदिषा विश्वाभिर्देवभूदिभिः इमाम् स्तोमम् दृढस्वनः सुसमिद्धो पघजक्षी च मधूमन्तम् तनोनपाद्यज्ञम् देवेषु नष्टवे हद्याक्रीणिः भीतये नराशंसमिह प्रियमस्मिन् यज्ञमुपह्वजे मधुजिह्वम् हविष्कृतम् अग्ने सुगतमे रसे देवाह असि होतामनृहिरः सृणीतबर्हिरा दृषभृतपृष्ठम् मनीषिणः यत्रावृतस्य च क्षणम् निःश्रयन्तामृता वृद्धो द्वारो देवीरसश्चाः अद्या नूनम् च जष्ट मे कर्तोषा सा सु साज्ञमुपः पजे इदम्ना बर्हिरासते सासु जिह्वा उपः पजे होदा रारीव्या कवी यक्षता इमाम् श्रिरा सरस्वती मही तिस्रो देवीर्म प्रणिभिः सीदम् त्वश्रिधाः इह त्वष्टालवग्रियम् विश्वरूपमुपह्वये अस्माकमस्तु केवलः अवश्रिदावनस्पते देवदेवेभ्यो हविः प्रधातुरस्तु चेतनम् स्वाहा यज्ञम् क्रेणो धनेन्द्राजरिद्वानो गृहे तत्र देवा उपहये अयिभिरग्ने सुिनो विस्मेभिः सोमापीतये देवेभिर्याहि अक्षी च आत्मा कण्वाघोषलघ्नम् देवि प्रदेधिया देवेभिरग्नागाहि इन्द्रवायो बृहस्पतिम् एताग्निम् घोषणम् भरम् आदित्यान् मारुदम् घटम् प्रवभ्रियन्त इन्द्रवो मत्सरामादहिष्णवाः द्र मध्वोषदाः यीळदेकण्सो वृत्तबलिहिषः भविष्मन्तो अलङ्कृताः धृतवृष्ठा मनो युजोये त्वा वहन् दिवन्ध्राजः आदेवान् सोमापीतये ताम् यजत्रामृता नृभोग्ने य लायीभ्याश्च ते पिबन्धुजिह्वला मधोरग्ने वृती पाकीम् सूर्यस्य रोचनाद् विस्वान् देवाम् पोषर्बुधाः विप्रोहो देहवक्षति विश्वेभिः सोम्यम् मद्भग्न इन्द्रेण वायुवा शिवामित्रस्य धामाभिः त्वम्भोदामनरहितोऽग्ने यज्ञेषु सीदसि सेवमन्ना अद्भरम् युक्ष्वाह्यरुषीले हरितो देवरोहिताः ताभिर्देवा ता इहावः इन्द्रतोमम् पिबर्तुमात्मा विसन् विन्दवः स्ततो मृदः पुनोदस्ति पत ऋतुना पोत्रा यज्ञम् पूनीतम योऽयम् हिष्टासू दानवः अभियज्ञम् गृह्णीहि नास्ति पृतुना त्वम् अग्ने देवा इहा वाह सादजायो त्रिषो परिभूषपि मनुना ब्राह्मणाजेन्द्रराधसप्तिपासो मम मृदो मृणो तवेधिसख्यमस्त्रे तम् युवम् दक्षम् धृतव्रतमित्रा वरुणधूलभम् धृगुना युज्ञमासासे द्रविणो दाद्रवीणसो ग्रामहस्तासो अध्वरे यज्ञेषु देवमीवते द्रविणोदाददातु निराने सन्धिरे देवेषु तावनामहे द्रविणोदास्ति मेदतिजुहो न प्रचदिष्टत नेष्ट्राष्यत यत्त्वा दुरीय मृतभर्द्रवी नो नो निजामहे अधस्मानो न निर्भवा अश्विनामिव गम् मधुरे यज्ञे सुजुव्रता ऋतुना यज्ञवाहसा गार्हवत्येन सञ्जतुना यज्ञनीरासि देवाजते देवा ज आत्त्वा वहन्तु हरजोषणम् सोमवीतये इन्द्रत्वा सूरजक्षसः इमाधानाभिवस्तु वो हरी इहोपवक्षतः इन्द्रम् सुहदमेरसे इन्द्रम् प्रादर्ह वामहनिन्द्रम् प्रयत्यध्वरे इन्द्रम् सोमस्य बीजये उपदः सुतमागहि हरिभीन्द्रकेशिभिः सुते हि त्वाहवामहे सेवन् नस्तो ममागुपेदम् समानम् सुतम् गौरो न इमे सोमा स इन्द्रवस्तु दासो अधिबर्हि ता इन्द्रसहसे पिब अयम् ते स्तोमो अग्नो हृदिस्तृकस्तु सन्त अथ सोमम् सुरम् पिबा विश्वमित्सवम् सुरमिन्द्रो गच्छति पुत्रः ेमन्नष्टा ममा प्रेण गोभिरश्वदक्रतो स्तवा स्वाध्याः इन्द्रावरुणयोराहं साम्राजोरवावृणे आलो मृळा च ईदृशे गन्ताराहिस्थो वासेहवम् विप्रस्यमावतः धारादर्षणीना अनुकामम् दर्पयेशामिन्द्रामरुण ता वा मे तिष्ठ मीमहे युवाकुहि सयीनाम् युवाकोसुमतीना भूयामहजदाम्ना इन्द्रः सहस्रदाम् मरो नः शंस्याना वा सापदम् सने महि च धीमहि स्यादुतप्ररे जनम् इन्द्रावरुण वा महम् भुवे चित्राय राधासे अस्मान् सु जिग्युषस्कृतम् इन्द्रावरुणनो नु वाम् शिषाः सन्दिषु वामस्नौतुरिन्द्रावरुणया भुवे या गृहासे सहस्तुलिम् सोहाणम् स्वरणम् गृहयब्रह्मणस्पदे रक्षीवन्तञ्जौषिजः यो देवा योमी बहाव सुरिपुष्टिवर्धनः सरश्चिरक्तुलस्तुरः मानः संसो अरारुषो धोक्तिः प्रणङ्मत्यस्य रक्षाणो ब्रह्मणस्पते सखावीरो ब्रह्मनस्पतिः सोमा हिनोऽधिमत्यम् स्वन्तम् ब्रह्मणस्पते सोम इन्द्रश्च सदा सस्पतिमद्भूतम् प्रियमिन्द्रस्य काम्यम् सरणिम् मेधामयाशिवम् यस्मादृतेन सिद्ध्यति यज्ञो वि मस्थिदस्तः स्वधीना योगामिंवति आरुध्नोति हविष्कृतिम् प्राञ्जम्त्यत्रा देवेषु गच्छति सुदृष्ट मम पश्यम् सप्रतस्तमम् जीवो न सद्मकरणम् प्रतित्यम् चारो मत्परम् गो गीता यभूयसे मरुद्भिरग्नागहि न हि देवो न मर्त्यो महस्तभग्नम् परः मरुद्भिरग्नागहि ये े ममो रजासो विदुर्विस्मे देवासो अज्रुहाः मरुद्भिरग्ना गाहि चन्द्रा अक्रमा नृजुरणा धृष्टा समोजसा मरुद्भिरघ्ना गाहि ये शुभ्रा घोरवर्पद सुक्षत्रासो विषादसः मरुद्भिरग्ना गाहि स्याधिलोचने दिवि देवासासते मरुद्भिरग्नागहि ययीम् क्रयन्ति पर्वताम् निरःसमुद्रमन्नवम् मरुद्भिरग्नागहि आये सम्बन्धि रश्मिभिस्तिरः स पुत्रमोजसा मरुद्भिरग्नागहि पूर्वपीतये श्रुजामि सोम्यम् मधु परद्भिरग्नागरि भद्राह् अपि वादयमनाः ओ जम् देवाय जन्म ने स्तोमो विप्रेभिरासया अकारिरत्रथातमः जिन्द्राय वशोयुगा तदक्षुर्मनसाहरी समेभर्जेयमासदा क्षन्ना सत्याभ्याम् परिज्वानम् सुखम् रथम् क्षम् धेनुम् स वर्धुभा युवावितरा पुनः सत्यमम् राजिधूयवाः विभोभिष्टक्रता सम्भो मदासो अग्भतेन्द्रेण च मरुत्वता आदित्येभिश्च राजाभिः त्यम् च भसन्नभन्तुष्टुर्देवस्य निष्क्रितम् अकर्तचतुरः पुनः तेनो रत्नानि धत्तनत्रियासाप्तानि सम्पते एकमेकम् सुस्तिभिः अथालयम् तमन्भयो भजन्तसु भृत्यया गम् देवेषु यज्ञियम् येन्द्राग्नी उपदेतजोलिः सोम पुष्मसि वा सोमम् सोमपाकामा तायज्ञेषु प्रशंसतेन्द्राग्नी सुम्भगानरः का गायत्रेषु गायता तामित्रस्य प्रशस् इन्द्राग्नीमहे सोमपा सोमापीतये उग्रासङ्क्रामहुभेदम् सवनम् श्रुतम् इन्द्राग्नेयेह गच्छता ता महान् दासदस्पथी इन्द्राग्निरक्षा उज्जतम् अप्रजास्तम् पत्रिणाः त्येन जागृतमधिप्रजेतु मे पदे इन्द्राग्निशर्म यच्छताम् रातर्युजा विबोधयाश्विनामेह गच्छताम् अस्य सोमस्य पीतये या सुरथाः रचित मोभादेवादि विस्मृशा अस्मि नाताः वामहे सामधुम्यस्विनासो नृतावती तया यज्ञम् मे वीक्षतम् न हि वामस्ति दूरगे यत्रारथेन गच्छथः अस्विना सोऽपिना गृहम् हिरण्यवानिभूतये स पितारमुपस्मये सेता देवता पदम् वितारमुपस्त्रिः तस्य व्रतान्यस्मसि मत्कारम् भवामहेवसो स्थित्रस्य राधासः सवितारम् वृचक्षसम् सखायानिषीदसवितास्तो नोम्नाः राधांसि शुम्भति अग्ने पत्नी जिहा आग्ना अग्ने सती स्पृष्टारम् सोमा गीतये आज्ञा अग्नजिहावेहोत्राम् जविष्टभारती अभिना देवीरव जा महः सर्माणाङ्गपत्नीः त्रा सुन्ता हेम् ह्राणीमुपह्वये वरुणानीम् स्वस्तये अग्नायीम् सोमाबीदये मनीद्योः पृथिवी च न इमम् यज्ञम् मे वीक्षताम् ऋताम् न भरीमभि अयोरिद्धृतवत्त्वयो मित्रादिहन्ति भीतिभिः धर्मस्य ध्रुवे पदे शो नापेतिविभवा रक्षरा निवेशानि गच्छा अतो देवावन्तु नो यतो विष्णर्विचक्रमे सप्तधामाभिः इयम् विष्णर्विचक्रमे त्रेधानि दधे पदम् समोषमस्य वाम् सुरे त्रीणि पदानि च क्रमे विष्णुर्गोपादाभ्यः अतो धर्माणि धारयन् व्रतानि पस्पसे इन्द्रस्य युज्यः तद्विष्णाः परमम् पदम् सदा पश्यन्ति सूरजाः दिवीपचक्षुरातम् तद्विप्रासोऽपि पन्नवोजाम् समिन्धते कृष्णा यत्परमम् पदम् तीव्राः सोमासागस्याशील्वन्तः सुस्तु राजि मे योतान् प्रस्थितान् विवान् उवादेवादिनिस्पृशेन्द्रभायो हवामहे अस्य सोमस्य पीतये इन्द्रभायो मा नोजु वा मित्रा हवन्त भूतये सहस्राक्षा बृहस्पती मित्रम् वयम् हवामहे वरुणम् सोमा पीतये निर्ज्ञानाभूतदक्षसा रे दया वृता वृथा ज्योतिषस्पती का मित्रावरुणाहुवे वरुणः प्रापिता भूवन्मित्रो विश्वाभिरुधिभिः करतान्नः सुराध सह अरुत्वम् तम् हवामहेन्द्ररा सोमापीलये स यो गणेन दृम्पतु इन्द्रज्येष्ठामरुद्गणादेवा सः पूषराजयः निः श्रे मम श्रुताहमम् फलभृत्रम् सुदानमलिन्द्रेण सहसा लिगा मानो दृष्टम् स ईशद विश्वान् देवामहे मरुदस्तो उग्राहि कृष्णीमातरः जयाता विवदम् यतुर्मरुता मेति धृष्ट्या जा। यच्छुभम् यासनानरः हस्कारा विद्युदस्पर्यतो जातावन्तु नः मरुतो मृणयन्तु नः आपोषम् चित्रपरिः णमाघ्रे मे धनुणम् दिवः या नष्टयथा पशुम् ऊषाराजानमाघ्रे निरपूढम् गुहाहिलाम् अविन्दचित्रपरिहिराम् उतो समख्यमिन्दो भ्रष्टुक्ता गो भैर्यवन्न चर्कृषत् ओ